अथ षट्पञ्चाशः सर्गः अथ रात्र्याम् व्यतीतायामवसुप्तमनन्तरम् प्रबोधयामाशनैर्लक्ष्मणम् रघुपुङ्गवः सौमित्रे शृणु वन्यानाम् वल्गुव्याहरताम् स्वरम् सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप प्रसुप्तस्तु भ्रात्रा समये प्रतिबोधितः जहौ निद्राम् च तन्द्राम् च प्रसक्तम् तत उत्थायते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् पन्थानमृषभिर्जुष्टम् चित्रकूटस्य तम् ययुः ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह सीताम् स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये पश्य भल्लातकान् बिल्वान्नरैरनुपसेवितान् फलपुष्पैरवलतान् नूनम् शक्ष्याम जीवितुम् पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मणा मधूनि मधुकारीभिः सम्भृतानि नगे नगे एष क्रोशति शिखी प्रतिकूजति रमणीये वनोद्देशे पुष्पसंस्तरसंकटे मातङ्गयूथानुसृतम् पक्षिसङ्घानुनादितम् चित्रकूटमिमम् पश्य प्रवृद्धशिखरम् गिरिम् समभूमितले रम्ये द्रुमैर्बहुभिरावृते पुण्येरंस्यामहेतातचित्रकूटस्य कानने ततस्तौ गच्छन्तौ सह रम्यमासे ततुः शैलम् चित्रकूटम् मनोरमम् तम् तु पर्वतमासाद्य नानापक्षिगणायुतम् बहुमूलफलम् रम्यम् सम्पन्नसरसोदकम् मनोज्ञोऽयम् गिरिः सौम्य अयम् वासो भवेत्ता तवयमत्र वसेमहि इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः अभिगम्याश्रमम् सर्वे वाल्मीकिमभिवादयन् तान् महर्षिः प्रमुदितः पूजयामास धर्मवित आस्यतामिति चोवाच स्वागतम् तन्निवेद्य च ततोऽब्रवीन्महाबाहुर्लक्ष्मणम् लक्ष्मणाग्रजः सन्निवेद्य यथा न्यायमात्मानमृषये प्रभुः लक्ष्मणानय दारूणि दृढानि च वराणि च कुरुष्वावसतम् सौम्यवासे मेऽभिरतम् मनः तस्य तद्वचनम् श्रुत्वा सौमित्रिर्विविधाम् द्रुमान् आजहारततश्चक्रे पर्णशालामरिन्दमः ताम् निष्ठिताम् बद्धकटाम् दृष्ट्वा रामः शुश्रूषमाणमेकाग्रमिदम् वचनमब्रवीत् ऐणेयम् माम् समाहृत्य कर्तव्यम् वास्तु शमनम् सौमित्रे चिरजीविभिः मृगम् हत्वा नय क्षिप्रम् लक्ष्मणे ह चकार च यथोक्तम् हितम् रामः पुनरब्रवीत् ऐणेयम् श्रपयस्वैतच्छालाम् यक्ष्यामहे वयम् त्वर सौम्य ध्रुवश्च दिवसो ह्ययम् हत्वा मेध्यम् प्रतापवान् अथ चिक्षेप सौमित्रिः समाज्ञाय निष्ठप्तम् छिन्नशोणितम् लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् अयम् सर्वः समस्ताङ्गश्रुतः कृष्णमृगो मया देवता देव सङ्काशयजस्वकुशलो ह्यसि रामः स्नात्वा तु नियतो गुणवाञ्जपकोविदः सङ्ग्रहेणाकरोत् बभूवचमनोह्लादो रामस्यामि ततेजसः वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् जपञ्च न्यायतः कृत्वा स्नात्वा नद्यान्यथाविधि पापसंशमनम् रामश्चकारबलिमुत्तमम् वेदिस्थलविधानानि चैत्यान्यायतनानि च आश्रमस्यानुरूपाणि स्थापयामास राघवः ताम् वृक्षपर्णच्छदनाम् मनोज्ञाम् यथा प्रदेशम् सुकृतान् निवाताम् वासाय सर्वेऽपि विश्वः समेताः यथा देवगणाः सुधर्मा सुरं यमासाद्य तु चित्रकूटम् ताम् माल्यवतीम् सुतीर्थाम् ननन्दहुष्टो मृगपक्षिजुष्टाम् जहौ च इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये अयोध्याकाण्डे षट्पञ्चाशः